श्रीमद्भागवत् महापुराणम् एकादशी स्कन्ध सुव्यक्तं तव प्रश्नं मयैतदपि धारयेत् सनातनं ब्रह्मगुह्यं परं ब्रह्माधिगच्छते य एतन्मं भक्तेषु सम्प्रदद्यासु तस्याहं ब्रह्मदा यस्य ददाम्यात्मानमात्मनां य एतत्समधीयेत पवित्रं परमं शुचे सा पुता हर्हर् दर्शयन् य एतश्रद्धया नित्यं व्यग्रहश्नुयान्नरः मयि भक्तिं परां कुर्वन् कर्मभिर्न सबध्यते अप्युद्धव त्वया ब्रह्मसखे समवधारितम् अपि विगतो मोहः शोकस्यासौ मनोभवः नैतत्त्वया दाम्भिकाय नास्तिकाय शठाय च अश्रुशोरभक्ताय दुर्विनीताय दिया दीयताम् एतैर्दोषैर्विहीनाय ब्रह्मण्याय प्रियाय साधवे शुचये ब्रूयाद्भक्ति स्यात्सुयोषितां नैतद्विज्ञाय जिज्ञासो ज्ञातव्यम् अवशिष्यते भित्त्वापि योषममृतं तातव्यं नावशिष्यते ज्ञाने कर्मणि योगे च वार्तायां दण्डधारणे यावानर्थो नृणां तात तावां चतुर्विधः मर्त्यो यदा त्यक्तसमस्तकर्मा निवेदितात्मा विचिकीर्षितो मे तदा मृतस्त्वं प्रतिपद्यमानो मयात्मभूयाय च कल्पते वै शीशोवाच स एवमादर्शितयोगमार्ग तदोत्तमश्लोकवचो निशम्यम् बन्धाञ्जलिपेत्युपरुद्धकण्ठो न किञ्चिदूचेषु परिप्लुताप्स विष्टभ्यचित्तम् प्रणन् प्रणयावघूर्णम् धैर्येण राजन् बहु मन्यमानः कृताञ्जलिप्राहयदु प्रवीरम् शिष्णास्पसंसच्चरणारविन्दम् उद्धौ उवाच विद्रावितो मोहमहान्धकारो य आशितो मे तव सन्निधानात् विभावशोकिं नु समीपगस्य शीतं तमोभि प्रभुवन्ति राद्य प्रत्यर्पितो मे भवतानुकम्पिना भृत्याय विज्ञानमयप्रदीपः त्वा कृतज्ञस्तवपादमूलं को न्यो समीयाचरणं तदीयं वृग्नश्च मे सुदृढ स्नेहपाशो दासाथविष्णन्धकसात्त्वतेषु प्रसारितश्रेष्ठविद्धयेतया समायया चात्मसुबोधहेतिनां नमोऽस्तु ते महायोगिन् प्रपन्न मनुषाधि माम् यथा त्वच्चरणाम्भोजे रतिशादनपायिनी श्रीभगवानुवाच गच्छोद्धवमयादिष्टो बदर्याख्यं ममाश्रमं तत्र मत्पादतीर्थोदे स्नानोपस्पर्शनैः श्रुचिः इक्षया लकनन्दाया विधूताशेषकल्मषः वसानो वल्कलान्यङ्गवन्यभोक्सुखिनी स्पृह त्रितक्षुर्दण्डमात्राणां सुशीलसंयतेन्द्रियः शान्तसमाहितधिया ज्ञानविज्ञानसंयुतः मत्तोऽनुशिक्षितं यत्ते विविक्तमनुभावयन् मया वेसितवाक्चित्तो मद्धर्मनिरतो भव अतिव्रजगतिस्तिस्रो मावेश्यसि ततः परम् श्रीशोवाच स एव मुक्तो हरिमेधसोद्धवः प्रदिक्षणं तं परिसृत्यन्पादयोः शिरोनिधाया शुकराभिरार्जधी न सिञ्च दद्वन्द्वरोऽप्यपप्रमे सुदुस्तजस्नेहवियोगकातरो न शक्तुमंस्तं परिहातु मातुरः पृच्छं ययो मूर्धनि भ्रातृपादुके बृहन्नमस्कृत्य ययौ पुनः पुनः ततस्तमन्तर्हृदि सन्निवेश्य गतो महाभागवतो विशालां यभूयथोपदिष्टां जगदेकबन्धुनात्मसमासाय हरेरगाद्गतिम् य एतदानन्दसमुद्रसंभृतं ज्ञानामृतं भागवताय भाषितम् कृष्णेन योगेश्वरसेविताङ्घ्रिणां सच्छ्रद्दया सेव्यजगद्विमुच्यते भवभयम् अपहन्तुं ज्ञानविज्ञानसारं निगमकृतुपं जह्रे भृङ्गवद्वेदसारम् अमृतमुदतीतश्चापायद्भृत्यवर्गान् पुरुसमृशमाद्यं कृष्णशङ्गं नतोऽस्मि इति श्रीमद्भागवते महापुराणे पारहंसां शयितायाम् एकादश स्कन्धे एकोनत्रिंशोऽध्यायः